हरि ओम् ग्रे सीता रामचन्द्राभ्या नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे षट्सप्ततितमः सर्गः अङ्गदेन कम्पनप्रजङ्घयोर्द्विवेदेन शोणिताक्षस्य मैन्देन यूपाक्षस्य सुग्रीवेण कुम्भस्य वधस्य। प्रवृत्ते सङ्कुले तस्मिन् घोरे वीरजनक्षये अङ्गदः कम्पनं वीरम् अससादरणोत्सुकः आहूय सोऽगदं गोपात् ताडयामा सुवेगितः गदया कम्पनः पूर्वं स चाल भृषा हतः स्वसंज्ञां शिक्षेप शिखरम् गिरे अर्जितश्च प्रहारेण कम्पनः पतितो भुवि ततस्तु कम्पनम् दृष्ट्वा शोणीताक्षुहतं रणे रथेनाभ्यपदक्षिपम् तत्राङ्गदम् अभितवत् सोमगम् निशिते वाणे तदा विव्याधवेगितः शरीरदारणे तीक्ष्णे कालाग्नि समविग्रहे क्षुरक्षुरप्रचनाराचये वत्सदन्तै शिलेमुखै कर्णिशल्यविपाठैश्च बहुभि निशितैः शरी अङ्गरः प्रतिविद्धाङ्गो वाले पुत्र प्रतापवान् धनुरुग्रङ्गसंबाणाम् ममार्द तरसाबली बलि शोणिताक्ष तथा क्षिप्रम् असि चर्म समाददे वेगवान् अविचारयन् तं क्षिप्र तरमभृत्य परांश्याङ्गदो बलि करेण तस्य तं समाच्छिद्य ननाद तस्यां स फलके खड्गम् निजघानदः यज्ञोपवीतवच्चैनम् चिच्छेदकपिकुञ्जरः तं प्रगृह्य महाखड्गम् विनद्य च पुनः पुनः वालिपुत्रोऽभिद्राव रणशीचे परानरिन् भजङ्घ्रे सहितो वीरो यूपाक्षस्तु ततो बलि रथेनाभिययो वाली पुत्रं महाबलम् आयसिं तु गदां गृह्य स्वीरः कनकाङ्गदः शोणिताक्ष समाश्वस्य तमेवानुपपातः प्रजङ्घस्तु महावीरो यूपाक्षसहितो गतया भीययो क्रुद्धो वालिपुत्रम् महाबलम् तयोर्मध्ये कपि श्रेष्ठ शोणिताक्ष प्रजङ्घयो विशाखयोर्मध्यगतः पूर्णचन्द्र इव बभौ अङ्गदम् परिरक्षन्तौ बैन्दो द्वि द्वेव च तस्य तूत अभ्यासे परस्पर दिदृक्षया अभि महाकाया प्रतियत्ता महाबलः राक्षसान् वानरान् रोषात् असि बाण गदाधरः त्रयाणां वानरेन्द्राणां त्रिभिः राक्षस भुङ्गवै संसक्तानां अभवद्रो महर्षणम् ते तु वृक्षान् समादाय सम्प्रतिक्षी पुराहवे खड्गेन प्रतिचिक्षेप तान् प्रजङ्घो महाबलः रथानश्वान् शैलान् प्रतिचिक्षी पुराहवे शरोभै तान् यूपाक्षो महाबल सृष्टान् द्विध महिन्दाभ्याम् वीर्यवान् बभञ्जे गदया मध्ये शोणिताक्ष प्रतापवान् उद्यम्यापि पुलम् खड्गम् परमर्माविधारणम् प्रजङ्घो वालिपुत्राय अभि दुद्राववेगितः तमभ्यास गतम् दृष्ट्वा वानरेन्द्रो महाबलः आजघानाश्वकर्णेन ति बलस्तदा बाहूं चाषस निस्त्रिंशम् अजघानसमुष्टिना वालिपुत्रस्य घातेन स्वपपात क्षितावसि तं दृष्ट्वा पतितं भूमौ खड्गं मुसलसन्निभम् मुष्टिं संवर्तयामास वज्रकल्पं महाबलः सललाटे महावीर्यम् अङ्गदम् वानर शभम् आजघान महातेजा स्वमुहूर्तम् चालः ससंज्ञाम् प्राप्य तेजस्वी वालिपुत्रः प्रतापवान् प्रयङ्घस्य शिरकाय पातयामासमुष्टिना स युक्क्षोऽश्रु पूर्णाक्ष पितृवे न्यतेरणे अवरुह्य रथाक्षिप्रम् क्षीणेषु कड्गमाददे तम्पदन्तं सम्प्रेक्ष्य यूपाक्षम् द्विविध स्वरन् अजघानो रथि क्रुद्धो जग्राह च दृष्ट्वा शोणिताक्षो महाबलः अजघान महातेजा वक्षसि द्विविधं ततः तततोभि हतस्तेन चचाल च महाबलः उद्यतां च पुनस्तस्य जहार द्विविधो गनाम् एतस्मिन्नन्तरे मैन्दो द्विविधाभ्यास माग माक्षं ताडयामास तलेनो रसि वीर्यवान् तौ शोणिताक्षयुपाक्षौ प्लवङ्गाभ्याम् तरस्विनौ चक्रतुः समरे तीव्रम् आकर्षोत्पाटनम् भृशम् द्विविधे शोणिताक्षम् तु विददार नखेर्मुखे निष्पिपेश स वीर्येण शिता वा विध्य वीर्यवान् मैन्दो वा पीडयामास बाहुभ्यां पपास स हतक्षितौ हतप्रवीरा व्यथिता राक्षसेन्द्र च मूर्तथा जगामाभिमुखी सातु कुम्भकर्णात्मजो यतः आपतन्तिं च वेगेन कुम्भस्तां सान्त्वयच्च मम् अथोत्कृष्टं महावीर्यै लब्धलक्ष्यै प्लवङ्गमयि निपातिते महावीरां दृष्ट्वा रक्ष च मुम कुम्भप्रचक्रे तेजसी रणे कर्म सुदुष्करम् स धनुर्धन् विना श्रेष्ठ प्रगृह्य सुसमाहितः ममो चाशी विष प्रख्यान् शरान् तस्य तत् भूय स्वशरम् धनुरुत्तमम् विद्युदैरावताति स्म द्वितीयेन्द्र धनुर्यथा आकर्णकृष्टुक्तेन जगान द्विविधं तथा तेन हाटकपुङ्खेन पत्रिणा पत्र वाससा सहसाभि हतस्तेन विप्रमुक्तपद निपपात त्रिकूटा विह्वलन् प्लवगोत्तमः मन्दस्तु भ्रातरं तत्र भग्नं दृष्ट्वा महाहवे अभिदुद्राववेगेन प्रगृह्य विपुलां शिलां तां शिलां तु प्रचक्षेप राक्षसाय महाबल बिभेद तां शिलां कुम्भ प्रसन्नै पञ्च भीश्चरै सन्धाय चान्यं सुम शरमाशीविचोपमम् अजघाना महातेजा वक्षसि द्विविधाग्रजम् सतूतेन प्रहारेण वैन्दो वा नरयूथपः मर्मण्यभियतस्तेन पपात् भुवि मातुलो दृष्ट्वा वसितो तु महाबलो अभिरुद्राववेगेन कुम्भं मुद्य च कार्मुकम् तम् आपतन्तं विव्याधे कुम्भः पञ्चभिरायसे त्रिभिश्चान्यै शि निर्माणे वातङ्गम् इव सोमरे विव्याध वीर्यवान् ऐकुण्ठारे निशितै तीक्ष्णैकनकभूषणे लीपुत्रो न कम्पते शिलापादपवर्षाणि तस्य मूर्धि वर्षः स प्रचिच्छेद तान् सर्वान् विभेद च पुनः शिला कुम्भकर्णात्मय श्रीमान् वालीपुत्र समीरितान् आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरकुयूथपं भ्रुवो विव्याधबाणाभ्याम् उल्काभ्याम् इव कुञ्जरम् तस्य सुस्रावरुधिरम् पिहिते चास्य लोचने अङ्गदः नेत्रे पिधाय रुधिरोक्षिते सालमासन्नकेन परिजग्राहपाणिना सम्पि जोरसि संस्कन्धम् करेणाभिनिवेशत् किञ्चिद् दभ्यवनम् मैनम् उन्ममाथ महारणे तम् इन्द्रकेतु प्रतिमम् वृक्षम् मन्दरसन्निभम् समुत्सृजत वेगेन मिषिताम् सर्वरक्षसाम् स्वचिच्छेदशितेर्माणे सप्ताभिकाय भेदने अङ्गुदो विवृथे भीक्ष्णम् स्वपपात ममोच मुमोह अंगदं पतितं दृष्ट्वा सीदन्तं व्यवसागरे दुरासदम् हरिश्रेष्ठ राघवाय न्यवेदयन् रामस्तु व्यथितम् श्रुत्वा वाली पुत्रम् महाहवे व्याधिदेशे हरिश्रेष्ठान् जाम्भवत् प्रमुखान् ततः ते तु वा श्रुत्वा रामस्य शासनम् अपि पेतु सुसंक्रुधा कुम्भम् मुद्य च कार्मुकम् ततो द्रुमा शिवा हस्ता कोपसंरक्तलोचनः ऋक्षीषन्तोभ्यत्पतत् अङ्गदम् वा नरर्षभ जाम्बमाश्च सुषेणश्च वेगदर्शी च वा नरः कुम्भकर्णाभजं समीक्षा पततास्तास्तु वानरेन्द्रान् महाबलान् आववार शोघेण नगेनैव जलाशयम् तस्य बाणपथम् प्राप्य न शेकोरपि वीक्षितुम् वानरेन्द्रा महात्मानो वेलाम्येव वा महोदधि तास्तु दृष्ट्वा हरिगणान् अङ्गदम् पृष्ठतः कृत्वा भर्तृजम् प्लवगेश्वरः अभि दुद्रावसुग्रीवः कुम्भकर्णात्मजं ऋणे शैलसानोचरम् नागम् वेघवान् निवकेसरी उत्पाट्य च महावृक्षान् अश्वकर्णादिकान् बहून् अन्याश्च विविधान् वृक्षान् शिक्षेप महाकपिः ताम् छादयन्तीमाकाशम् वृक्षवृष्टिम् दुरासधम् कुम्भकर्णात्मज श्रीमान् चिच्छेदरश रैषितै अभिलक्षेण तीव्रेण कुम्भेनाशि निजितैश आचिताते द्रुमा रेजुर्यथाघोराश दघ्नय द्रुमवशम् तु दृष्ट्वा कुम्भेन वीर्यवान् वानराधिपतिः श्रीमान् महासत्रून् विव्यथे स विद्यमान सहसा समानस्तुताञ्जनम् कुम्भस्य धनुरक्षिप्य बभञ्जेन्द्र धनुप्रभम् अवप्लुत्य तथा शीघ्रम् कृत्वा कर्म सुदुष्करम् अब्रवीत् कुपितः कुम्भम् निकुम्भाग्रजवीर्यन्ते बाणवेगं तदद्भुतं सन्नतिश्च प्रभावश्च तव वा रावणस्य वा प्रह्लाद बलिवृद्रघ्न कुबेर वरुणोपम एकस्थम् अनुजातोऽसि पितरं बलवत्तरम् साम्येवैकं महाबाहुम् शूलहस्तं मरिन्दमम् त्रिदशा नातिवर्तन्ते जितेन्द्रियं विवाधय विक्रमस्व महाबुद्धे कर्माणि मम पश्य वरदाना पितृव्यस्ते सहते देवदानवान् कुम्भकर्णास्तु वीर्येण सहते च सुरासुनां धनुषीन्द्रजितस्तुल्य प्रतापे रावणस्य च म् अद्य ऋक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः महाविमर्दं समरे मया सहतवद्भुतम् अद्य भूतानि पश्यन्तु शक्र शम्बरयोरिव कृतमप्रतिमं कर्म दर्शितं चात्रकौशलम् पतिता सयेते स्वयेते भीमविक्रमः उपालम्भयाच्चैव नासि वीरमय हतः कृतकर्म परिश्रान्तो परिश्रांतो पश्य मे बलम् तेन सुग्रीववाक्येन सावमाने न मानितः अग्नयराज्यभूतस्यैव तेजस्तस्याभ्यवर्धत ततः कुम्भः तु सुग्रीवं बाहुभ्यां च गृहे गजा विवातीत मदौ निश्वसन्तो मुहुर्मुहुः अन्योन्यगात्र ग्रथितौ घर्षन्ता वितरेतरं, स्वधूमां मुखतो ज्वालाम् विसृजन्तो परिश्रमात् तयोः पादाभिघाताश्च निमग्ना चा भवन्मही, व्याघूर्णी ततरङ्गश्च चुक्षुभे वरुणालयः ततः कुम्भम् समुत्क्षिप्य सुग्रीवो लवणाम्भी पातयामासुवेगेन दर्शयन्नुदधे स्थलम् ततः कुम्भ निपातेन जलराशि समुत्थितः विन्ध्यमन्दर सङ्काशो विषसर्प समन्ततः ततः कुम्भ समुत्पत्य सुग्रीवम् अभिपात्य जगहाणो ऋिक्रुधो वज्रकल्पेन मुष्टिना तस्य वर्म च स्फोट सञ्जज्ञे चापि शोणितम् तस्य मुष्टि महावेग प्रति झग्नेऽस्ति मण्डले तस्य वेगेन तत्रासीत् तेजः प्रज्वलितं महेत् वज्रनिष्पेष संजाता ज्वालामेरोर्यथा गिरे स तत्राभियतस्तेन सुग्रीवो वानरषभ मुष्टिं संवर्तयामास वज्रकल्पम् महाबलः अचि विचक रविमण्डलवर्चसम् स मुष्टिम् पातयामास कुम्भस्योरसि सतुतेन स तु तेन प्रहारेण विह्वलो भृशपीडितः निपतात् तदा कुम्भो गता पावकः मुष्टिनाभिहत तेन निपपाताशु राक्षसः लोहिताङ्ग इवाकाशात् दीप्तरश्मी यदृच्छया कुम्भस्य पततो रूपं रसि मुष्टिना बभो रुद्राभिपन्नश्च यथा रूपं गवां तस्मिन् हते भीमपराक्रमेण प्रवङ्गमाना वृषभेन युद्धे महिष शैलासवना च दाल भयं च रक्षान्त्यधिकं विषय विवेश इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे षट्षट् सप्ततितमः सर्गः श्री सीतारामचन्द्रार्पणमस्तु